सोचते चैव कारुण्याच्छृणुये वै वयम् द्विजा याया वरा नाम वयम् ऋषयः संसितव्रताः लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने प्रणष्टम् नस्तपस्तीव्रम् न हि नस्तन्तुरस्ति वै अस्तित्वे कोद्यनस्तन्तुः सोऽपि यथा तथा मन्दभाग्योऽल्पभाग्यानाम् तप एकम् समास्थितः जरत्कारुरितिख्यातो वेदवेदाङ्गपारगः नियतात्मा महात्मा च सुव्रतः सुमहातपाः तेन स्म तपसो लोभात् भार्या पुत्रो वा बान्धवो वास्ति तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्य नाधवत् स वक्तव्यस्त्वया दृष्टो ह्यस्माकम् नाधवत्तया पितरस्तेऽवलम्बन्ते गर्ते दीनाधोमुखाः साधुदारान्कुरुष्वेति प्रजामुत्पादयेति च कुलतन्तुर्हिनः शिष्टस्त्वमेवैकस्तपोधन यस्त्वम् पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् एषोऽस्माकम् कुलस्तम्ब आस्ते स्वकुलवर्धनः यानि पश्यसि वै ब्रह्मन्मूलानि हास्यवीरुधः एतेन स्तन्तवस्ताता कालेन परिभक्षिताः यत्त्वे तत्पस्य सिब्रह्मन्मूलमस्यार्धभक्षितं यत्र लम्बामहेगर्ते सोऽप्येकस्तप आस्थितः यामखुम्पस्य सिब्रह्मन् काल महाबलः